अथ चतुर्विंशः सर्गः आश्रमम् प्रति याते तु खरे खर पराक्रमे तानेव उत्पातितान् रामः सह भ्रात्रा ददर्शः तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः प्रजानामहितान् दृष्ट्वा वाक्यम् लक्ष्मणमब्रवीत् इमान् पश्य महाबाहो सर्वभूतापहारिणः समुत्थिता महोत्ता संहर्त सर्वराक्षसाने अमीरुधिधारास्त विसृजंते खरस्वना व्योंघा निर्तं ते परा गर्दारुणा सधूमाशरा मम युद्धाभिनता ऋक्मृा चाप्स विचे विचक्षण यादृश इह कूज पक्षिणो अग्रतो नोभयम् प्राप्तं संशयो जीवितस्य च सम्प्रहारस्तु सुमहान् भविष्यति न संशयः अयमाख्याति मे बाहु स्फुरमाणो मुहुर्मुहुः सन्निकर्षे तु न शूरजयम् पराजयम् सुप्रभम् च च तव वक्त्रम् हि लक्ष्यते उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणा निष्प्रभम् वदनम् तेषाम् भवत्यायुः परिक्षयः रक्षसाम् नर्दताम् घोरः श्रूयते यम् महाध्वनिः आहतानाम् च भेरीणाम् राक्षसैः क्रूरकर्मभिः अनागतविधानम् तु शुभमिच्छता आपदम् शङ्कमानेन पुरुषेण विपश्चिता तस्माद्गृहीत्वा वैदेहीम् शरपाणिर्धनुर्धरः गुहामाश्रयशैलस्य दुर्गाम् पादपसङ्कुलाम् प्रतिकूलितुमिच्छामि न हि वाक्यमिदम् त्वया शापितो मम पादाभ्याम् गम्यताम् मत्समाचिरम् त्वम् हि शूरश्च बलवान् हन्या एतान्न संशयः स्वयम् निहन्तुमिच्छामि सर्वानेव निशाचरान् एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया शरानादाय चापम् च गुहाम् दुर्गाम् समाश्रयत् तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् सतेनाग्निकाषेण कवचेन विभूषितः बभोवरामस्तिमिरे महान् अग्निरिवोत्थितः स महा चापमुद्यमयमः क्षरानादाय वीर्यवान् सम्बभू वा स्थितस्तत्र ज्यास्वनैः पूरयम् दिशः ततो देवाः स गन्धर्वाः सिद्धाश्च सहचारणैः समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षया ऋषयश्च महात्मानो लोके ब्रह्म ऋषसत्तमाः समेत्यचोचुःसहितास्तेऽन्योन्यम् पुण्यकर्मणः स्वस्ति गो ब्राह्मणानाम् च लोकानाम् चेति संस्थिताः जयताम् राघवो युद्धे पौलस्त्यान् रजनीचरान् चक्रहस्तो यथा युद्धे सर्वाणसुरपुङ्गवान् एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् चतुर्दश सहस्राणि राक्षसाम् भीमकर्मणा एकश्च रामो धर्मात्मा कथम् युद्धम् भविष्यति यदि राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः वाविष्टम् तेजसा रामम् सङ्ग्रामशिरसि स्थितम् दृष्ट्वा सर्वाणि भूतानि भयाद्दिव्यथिरेतदा रूपमप्रतिमम् तस्य रामस्याक्लिष्टकर्मणः बभूवरूपम् क्रुद्धस्य रुद्रस्येव महात्मनः इति सम्भाष्यमाणे तु ततो गम्भीरनिर्ह्रादम् घोरचर्मायुधध्वजम् अनीकम् यातु धानानाम् समन्तात् प्रत्यपद्यता वीरालापान् विसृजतामन्योन्यमभिगच्छताम् चापानि विस्फारयताम् जृम्भताम् चाप्यभीक्ष्मशः विप्रघुष्टस्वनानाम् च दुन्दुभींश्चापि तेषाम् सुतुमुलः शब्दः पूरयामास तद्वनम् तेन शब्देन वित्रस्ताश्वापदा वनचारिणः दुद्रुगुर्यत्र निःशब्दम् पृष्ठतो नावलोकयन् तच्चानीकम् महावेगम् रामम् समनुवर्तत धृतनानाप्रहरणम् सागरोपमम् रामो चारयश्चक्षुः सर्वतोरणपण्डितः ददर्शखरसैन्यम् तद्युद्धायाभिमुखो गतः विदत्य च धनुर्भीमम् तूण्याश्चोद्धृत्य सायकान् क्रोधमाहारयत्तीव्रम् वधार्थम् सर्वरक्षसा दुष्प्रेक्ष्यश्चाभवत्क्रुद्धो युगान्ताग्निरिवज्ज्वलन् तम् दृष्ट्वा तेजसा विष्टम् प्राव्यथन् वनदेवताः तस्य रुष्टस्य रूपम् तु रामस्य ददृशे तदा रक्षस्येव क्रतुम् हन्तुमुद्यतस्य पिनाकिनः तत्कार्मुकैराभरणैरथैश्च तद्वर्मभिश्चाग्निसमानवर्णैः बभूवसैन्यम् विशिताशनानाम् सूर्योदये नीलमिवाभ्रजालम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे चतुर्विंशः सर्गः